ओम् शन्नो वातः पवताम् मातरिश्वा शन्नस्तपतु सूर्यः रात्रिः प्रतिधीयताम् शमुषानोऽप्युच्छतु शमादित्य उदेतुनः सरस्वती माते व्योमसन्दृशि इडायैवास्त्वसि वास्तु मद्वा आस्तु मन्तो भूयास्ममावास्तो ओच्छित्स्मह्य वास्तु स्व भूयाद्यो अस्मान् द्वेष्टियम् च वयम् द्विष्मः प्रतिष्ठासि प्रतिष्ठावन्तो भूया स्म माप्रतिष्ठाया आश्चित्मह्यप्रतिष्ठः स भूयाद्यो अस्मान् द्वेष्टियम् च वयम् द्वेष्मः आवात बाहिभेषजम् विवातबाह्यद्रपः त्वगम् विश्वभेषजो देवानाहम् दूत ईयसे द्वाविमौ वातौ वात आसीन् धोरापरावतः दक्षम् अन्य आवातु परान्यो वातु यद्रपः यदोवातते गृहे मृतस्य निधिर्हितः ततोनो नो देहि जीवसे ततोनो नो देहि भेषजम् ततो नो, नो, नो आवहवात आवातु भेषजम् शम्भूर्मयो भूर्नो हृदे प्रण आयुगम् शितारिषत् इन्द्रस्य गृहोऽसि प्रपद्ये सगुः साश्वः सह यन्मे भूः प्रपद्ये भुवः प्रपद्ये सुपः प्रपद्ये भूर्भुवः सुपः प्रपद्ये वायुम् प्रपद्येना आर्ताम् देवताम् प्रपद्येश्मानमाखणम् प्रपद्ये प्रजापतेर्ब्रह्म कोशम् ब्रह्म प्रपद्ये अन्तरिक्षम् महुर्वन्तरम् बृहदग्नयः पर्वताश्च यया पात स्वस्त्यास्वस्ति मान्तया आस्वस्त्यास्वस्ति मानसानि मयि मे धां अग्निस्तेजो दधातु मयि मे धां मयि दधातु मयि मे धां सूर्यो भ्राजो दधातु द्युभिरक्तुभिः परिपातमसानरिष्टेभिरश्विनासौ भगेभिः तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत कयानश्चित्र भुवदूती सदा वृधः सखा कस्त्वा सत्यो मदानाम् मगम् हिष्ठो दृढाचिदारुजेवसु अभीषृणः सखीनामविताजरितॄणाम् शतम् पयः उपसे उपसेदुरिन्द्रम् प्रिय धारशयो धार्षयो नाधमानाः अपध्वान्तमूहुर्न्नुहि पूर्द्धि चक्षुर्मुग्ध्यस्मान्निधयेव बद्धान् शन्नो देवीरभिष्टय आपो भवन्तु पीतये ए शंयोरभिः स्रवन्तु नः ईशानापार्याणाङ्क्षयन्तीश्चर्षणीनाम् अपो याचामिभेषजम् सुमित्रान न आप ओषधय दुर्मित्रास्तस्मै भूया सूर्योस्माच उस्मान द्वेष्टियंच हिष्ठा भुवस्ता नन ऊर्जे दधातन महेरणा चक्ष यो वह शिवतमोरस्य भाजयते हन उशतीव तस्मा अरंगम वो यथ आपो जनयथा जनः पृथिवी शान्तासाग्निना शान्ता सा मे शान्ताशुचगम् शमयतु अन्तरिक्षगम् शान्तम् तद्वायुना शान्तम् तन्मे शान्तगम् शुचगम् शमयतु द्यौः शान्ता सादित्येन शान्ता सा मे शान्ताशुचगम् शमयतु पृथिवी शान्तिरन्तरिक्षगं शान्तिर्द्यौ शान्ति शान्तिर्मे अस्तु शान्तिः तया हगम् शान्त्या सर्वशान्त्या मह्यम् द्विपदे चतुष्पदे च शान्तिम् करोमि शान्तिर्मे अस्तु शान्तिः ह्री ह्रीश्चृति तपो मेधा प्रतिश्र सैता मोत्ति मनूत्ति म्रीश्च धृति तपो मेधा प्रतिश्रद्धा सत्यहाशु उदायुषा स्वायुषो दोषधीनागम् रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृतागम् अनु तच्चक्षुर्देवहितं पुरस्ता आच्छुक्रमुच्चरत् पश्येम शरदश्शतम् य उदगान्महतोऽर्णवा आद्विभ्राजमानः शरीरस्य मध्यात्समावृषभो लोहिताक्षः सूर्योऽपि पश्चिन्मनसा पुनातु ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेऽयम् पृथिवी ब्रह्मणा मही धारितमेन महदन्तरिक्षम् दिवन्दाधार पृथिवीगम् सदेवाञ्यदहम् वेद तदहम् धारयाणि मामद्वेदोऽधिविः स्रसत् मेधामनीषे मा समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वधमानः यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अधते स्याम ब्रह्म प्रापादिष्मतन्नो माहासीत् ॐ शान्ति शान्तिः शान्तिः शान्ति